तोणतिरण्डाव दशकम् कर्ममुम् भक्तिम् वेधै सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश मा भूद्वेतैर्निषिद्धे कुहचिदभिमनः कर्मवाचाम् प्रवृद्धि दुर्वर्जम् चेतवाप्तम् तदपि अर्पये चित् प्रकाशे यस्त्वन्यः कर्मयोग तव भजमनयस्तत्र चाभीष्टमूर्तिम् हृद्यांस्तत्त्वैकरूपाम् दृशति हृदिव्रते क्वापि मा भावयित्वा पुष्पैर्गन्तैर्निवेद्यै अपि च विरचिते शक्तिथो भक्तिभूतये नित्यम् वर्याम् सपर्याम् विददैविव त्वत्प्रसादम् भजेयम् स्त्रीसूद्रा स्वत्कदादी श्रवणविरहिता आसताम् ते दयार्हाम् त्वत्पाधा सन्नयादान् विजकुलजनुषो हन्दसोषाम् यशान्तन् वृत्त्यर्थम् ते यजन्तो बहुकथितमपि त्वामणा कर्णयन्तो दृप्ता विद्याभिजात्यै किमु न विदतते धातृशम् मा पापोयं माम् पापोऽयम् कृष्णरामेत्यभिलपदि निजम् गोहितुम् बहुतरकतनी निर्लज्जस्यास्य वाच बहुतरकतनि यानि मे विग्नितानि भ्राता मे भजति किल विष्णुमित्तम् बुदांस्ते निन्द्युश्चैर्हसन्ति त्वयि निहितमती दातृशम् मा कृता माम् श्वेतश्चायम् कृते त्वाम् मुनिवरवपुषम् प्रीणयन्ते तपोभिः त्रेदायाम् यजन्ते सेवन्ते तन्त्रमार्गे विलसदरिगतं द्वापरे श्यामलाङ्गम् नीलम् सङ्कीर्तनाद्यैरिहकलिसमये मानुषा त्वाम् भजन्ते सोऽयम् काले यकालो जयति मुररिपो यत्र निर्यत्नैरेव मार्गै रकिलधनचिरात् त्वत्प्रसादम् भजन्ते जाता स्त्रेता कृताधाम् अपि किल कलौ सम्भवम् कामयन्ते दैवात्तत्रैव जातान् विषयविशरसैर्मा विभो वञ्चयास्मान् वक्तास्तावत्कलौ स्योर्द्रविलबुविदतो भूरीच्तोस्री अनुकिल कृद मलातीशी हामातमी च विभो किंजितं संयी आशाबाशे भ्रमय न भगवन पूरय् दृष्ट्वा धर्मद्बृहम् तम् कलिमपकरुणम् प्राङ्मकीषित्परीक्षेद् हन्तुम् व्याकृष्टगड्गोपिन विनिहितवान् सारवेदी गुणांशात् त्वत्सेवाद्यासुसिद्धे त्वत्परे सैषबीरो प्रबहरते तत्र शिक्षयैनम् गङ्गा गीता च गायत्यभि चतुलसिका गोपिका चन्दनम् तत् शालग्रामाभिपूजा परपुरुष तदैकादशी नाम वर्णा एतान्यष्टाप्य यत्नान् ययि कलिसमये त्वत्प्रसादप्रवृद्धया क्षिप्रम् मुक्तिप्रधानीत्य विददुर्षय तेषु माम् सज्जयेत देवर्षीणाम् पितॄणाम् अपि न पुनरुणि किम् करो वासभूमन् योऽसौ सर्वात्मना त्वा चरणमुपगत तस्योत्पन्नम् विकर्माण्यकिनम् अपनुदस्येव चित्तस्थितस्त्वम् तन्मे पावोत्तदापान् पवनपुरपते वृन्दिभक्तिम् प्रणीया कृष्णा कृष्णा मुकुन्ता जनार्दनः कृष्णा गोविन्दनारायणहरे अच्युदानन्त गोविन्दमाधवा सच्चिदानन्तनारायणाहरे